हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे द्वितीयस्कन्धे द्वादशोऽध्याय श्रुत उवाच तच्छ्रुत्वा वचनम् तस्य व्यासः सत्यवती सुतः उवाच वचनम् तत्र स्वभायाम् नृपतिं च तम् व्यास उवाच शृणो राजन्त्रवक्ष्यामि गुह्यमद्भुतम् पुण्यम् भागवतम् नाम नानाख्यानयुतम् शिवम् अध्यापितम् मया पूर्वम् शुकायात्मा सुधाय वै श्रावयामि नृपस्सामही रहस्यम् परमम् मम धर्मार्थकाम मोक्षाणाम् कारणम् श्रावणात् किल शुभदम् सुखदम् नित्यम् सर्वागमसमुद्धृतम् आस्तिकोऽयम् सुधस्य विघ्नार्थम् कथमागतः प्रयोजनम् किमत्रास्य सर्पाणाम् रक्षणे प्रभो कथयैतन्महाभागविस्तरेण कथानकम् पुराणम् च तथा सर्वम् विस्तराद् सुव्रत व्यास उवाच जलत्कारो मदीशातो नरचकार गृहाश्रमम् तेन दृष्टा वने गर्ते लम्बमाना स पूर्वजा ततस्तमाहु कुरु पुत्रधाराम् यथा च पश्चात् तृप्ति स्वर्गे व्रजामय खलु दुःखमुक्ता वयं सदाचार्युते सुते वै स तान्नुवाचाथ रभे समानाम् सया गृहारम्भमहं करोमि द्रविलितां च मम पूर्वजा वै इत्युक्त्वा तान् जरत्कारुर्गतशीतान् प्रतीर्य तथैव पन्नघाशप्ता मात्रानौ निपतन् कश्यपस्य मरे पत्न्या कदृश्च तथा दृष्ट्वाति रथे चाश्वम् ऊचस्तुश्च परस्परम् तम् दृष्ट्वा च तदा कद्रु विनता इदमब्रवीत् किं वर्णोऽयम् हयो भद्रे सत्यम् प्रब्रूहि माचरम् विनतावाच श्वेतये वा श्वराजोऽयम् किम् वा त्वम् शुभे गृही वर्णम् त्वमप्यस्य ततस्तु विपणावहे कद्रुवाच कृष्णवर्णम् भयम् मन्ये हयमेन एही दासी भावाय सूतवाच दिव्यवाय भाविच कदार बंत्रक शरीर के यद्ञ गयी छान अन्ये चक्रु हयम् तर्पा कर्बुरं वर्णभोगकै वैष्टयित्वास्य पृच्छन्तु मातुः प्रिय चिकित्सया भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् कर्बुरं तं हयं दृष्ट्वा विनतः चातिदुःखिता सदा जगाम गरुडे सुतस्त महाबले सद्दृष्ट्वा मातरम् दीनं अपृच्छत्पन्नशनः मा मातः कथं सुदी नासी हृदितेव विभासि मे जीवमाने मयि सुते तथान्यैर्विसारथौ दुःखिताऽी ततो ता बान्धिक जीवितम् चारुलोचने किं जातेन सुते नाथ यदि माता सुदुःखिता शंसमये कारणं माथे करोगतज्वलं विनता उवाच स पत्न्या दस्यम् पुत्र किं ब्रवीमि व्रक्षसा व मां सा भ्रमित्यज्य तेनस्मि दुःखिता सुत गरुड उवाच वै सेहं तत्र किल यत्र सः गन्तुमुत्सक कल्याणी निश्चिन्तां तां करोम्यहम् व्यास उवाच इत्युक्त्वा सः विनता तदा दासी भावम् तथा कर्तुं गरुडोऽपि वाहे तां च पुत्रां वै सिन्धु पारं जगामः गत्वा तां गरुडप्रह ब्रूहि मात नमोऽस्तुते कथम् मुचेत मे माता दासी भावाद संशयम् कद्रुवाच अमृतम् देवलोकात्सम्बला दानीय मयि सुतान् समर्पय सुधाद्यासु मातरं मोचयाबलम् दासुवाच इत्युक्तात्रैव शीघ्रम् इन्द्रलोकम् महाबल कृत्वा युद्धं चाराशु सुधाकुम्भम् खगोत्तमय समानीयामृतम् मात्रे वैन तेय्य मोचिता विनतातेन तेन दासीभावात् संशयम् अमृतम् सञ्जारेन्द्रे स्नातुं सर्पा गता दासी गता दासीभावात् विनिर्मुक्ता विनता विपतेर्बलात् तत्रास्येणा कुशाश्रयसु लीढापन्नगनामकैः द्विजिह्वे सुसम्पन्ना कुशाग्रहस्पर्शमात्रतः मात्रा सप्तासु ये नागा वासुके प्रमुखाशु च ब्रह्माणम् शरणम् गत्वा ते होचू चापजम्भयम् ता न ब्रह्मा जलत्कारु महामुनि वासुकेर्भगिनीं तस्मै अर्पयध्वम् सुनामिकाम् तस्यां योजाय ते पुत्र सर्वत्रा भविष्यति अस्ति क इति नामासु भविता न ना जयः वा सुखिस्तु तदा कर्ण्यवचनम् ब्रह्मण शिवम् वनं गत्वा सुतां तस्मै ददोभिनायपूर्वकम् स नामां तां ज्ञाता जलद्गारु वाचतम् अप्रियं मे यदा कुर्यात् तदा तां सन्त्यजाम्यहम् वाग्बन्धं तादृशम् कृत्वा मुनिर्जग्राहतां स्वयं दत्वा च वा सुखे कामम् भवनम् जगामः कुत्राकुटिं शुभ्राम् जत्कारुर्महाव तया सह सुखम् प्राप्य एकदा भोजनम् कृत्वा सुप्तो सो भगिनी वा सुखे तत्र संस्थितानि नोधम तैया तो ग्रीता सुदतीवीर से गिरी संध्या काल उपस्थित किं कौमे न भे शांति तेज बोधित पुनः धर्म लोग भयाधीता जलत्कारुचित नोचे प्रबोधयाम्यनमें संध्या काल वृथा व्रजेत धर्मनाशात् वरं त्याग तथापि मरणम् ध्रुवम् धर्महाणि नराणां हि नरकाय भवेत् न इति सञ्चिञ्च सा बाला तं मुनिम् प्रत्यबोधयत् सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठ सोरत उत्थितोऽसौ मलिकोपात् तस्तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी वेपमाना ब्रवीद्वाक्यं विद्युक्त्वा मुनिना तदा भ्रात्रा दत्ताय रथं तयत्कथं च दमितप्रभ मुनिप्राह जलत्कारुं तदस्तीति निराकुल गता सा मुनिना त्यक्ता वा सदनं तथा पृष्टा भरत्रा ब्रवीद्वाक्यं यथोक्तं पतिना तदा अस्ति चित्त्वा च गतो सौ मुनिसप्तमः वासुकी तु तदा कर्ण्य सत्यवाङ्मनि इत्य विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् तदकालेन केता जातो सौ मुनिबालकः अस्ति क इति नामासो विख्यातः कुरु तेन रक्षतो यज्ञत्व पार्थिव सप्तमः पात्र पक्ष रक्षा मुन न भावतात्मना भव्य महाराज मनोमया मुकुत्पन्न वासुके भगिनी सुध स्वीते सुबाहू भारत सकल दानानी बहु बहुदत्ता पूजिता मुनय तथा कृतेन सुकतेना स्वरगति पावितं न कुलं कृतं uh, तया भूप भूपतिसत्तमः देवाचार्यतनं भूप विस्तीर्णं कुरु भक्तितः येन वै सकलासिद्धि तव स्याज्जनमेजय पूजिता परिह भक्त्या सदा सकलदासदा पुनवृद्धिं करोत्येव राज्यं च सुस्थिरं तदा देवी मखं विधानेन कृत्वा पार्थिवसत्तमः श्रीमद्भागवतं नाम परमं शृणु त्वामहं चावयिष्यामि कथाम् परमपावनीम् संसार तारिणीम् दिव्यां नरसमारुताम् न श्रोतव्यम् परञ्चास्मात् पुरा न विद्यते भुवि न राज्यम् विद्यते राजन् देवि ते सौभाग्या कृतप्रज्ञा धन्यास्ते नृपसत्तम येषाम् चित्ते सुरा देवी वसति प्रेमसङ्कुले सुदुःखितास्ते दृश्यन्ते भुवि भारतभारते नाराधिता माया ये जनैश्च सदाम्बिका ब्रह्मादय सुरा सर्वे यताराधन तत्परा वर्तन्ते सर्वदा राजन्तां न सेवे तको जनः नित्यं सर्वान् कामान् अवाप्नुयात् भगवत्या समाख्यातं विष्णवे यदनुत्तमम् तेन ुतेन ते राजन् चित्ते शास्तिर्भविष्यति पितॄणां चाक्षय स्वर्गे पुराणश्रवणाद् भवेत् इति श्रीमद्देवी भगवते मा पुराणे अष्टादशसहस्रां संहितायां द्वितीयस्कन्धे श्रुतृपरवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः द्वितीयस्कन्धः समाप्तः श्रीजगदम्बिकायार्पणमस्तु